भागवत महापुराणम महापुराणादश स्कंध अथाष्टम अवधूतपाख्यान अजगर से लेकर पिंगला तक गुरुओं की कथा ब्राह्मण उच सुख में राजे नरक दुख तस्माचेत तदुध ग्रासं सुमृष्टं विरसं महांतं शोकमेव वां यदीक्षयैवा पतितं ग्रसेदाज्गरो क्रियः सहिताहानि भूरिणे निराहारोऽनुपक्रमः यदि नोपनमेद्ग्रासो महाहिरिवदिष्टभूम् ओजसहो बलयुतं बिभ्रद्देहमकर्मकम् शयानो वीतनिद्रश्च लेहेतेन्द्रियवानपि मुनिः प्रसन्नगम्भीरो दुर्विकाशो दुरत्यः अनन्तपारोषक्षोभ्यस्तिमितोवः समिद्धकामो हीनो वा परो मुनिः नो सर्पेत न शुस्येत सरिद्धीरिवसागरः दृष्ट्वा श्रियं देवमायां तद्भावैरजितेन्द्रियः प्रलोभितपतत्यन्धे तमस्यग्नौ पतङ्गवत् योऽसिद्धेरण्याम्भरणाम्बरादि द्रव्येषु माया रचितेषु मूढ प्रलोभितात्माधुपभोगबुद्ध्या पतङ्गवन्न सति नष्टदृष्टि स्तोकं स्तोकं ग्रसेद्ग्रासं देहे देहो वर्तेत यावतां गृहान् सिंहन्नातिष्ठेद्वृत्तिम् माधुकरीं मुनिम् अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः सर्वत सारमादद्यात् पुष्पेभ्य इव षट्पदः सायन्तनं शशन् स्वन्तनं वां न सङ्गृह्णीत भिक्षुतं पाणिपात्रो दरामत्रो मक्षिके वा न सङ्गृही सायन्तनं श्वस्तनं वां न सगृह्णीतभिक्षुकः मक्षिकाय सगृह्णन् सहते न विनश्यति पदापि युवतिं भिक्षुर्णस्पृशेद्वारवीमपि प्रसन्करीव बध्येत करिण्या अङ्गसङ्गतः नाधिगच्छे स्त्रियं प्राज्ञ कर्हेत्यन्मृत्युमात्मनः बलाधिकैः स हन्येद्गजैरन्यैर्गजो यथा न देवं नोपभोग्यं च लुब्धैर्यदुःखसञ्चितं भुङ्क्ते तदपि सत्याो मधुभेवाथ विन्मथो सुदुःखोपार्जितैर्वित्तैः आसानां गृहाशिषः मधुभेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनां ग्राम्यगीतं न शृणुयां यतिर्वनचर क्वचे शिक्षेत हरिणाद्बद्ध्वा मृगियोगिं तमोहितात् नित्यवादित्रगीतानि जि सङ्ग्राम्याणि योषिताम् आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगीषुतः जह्वयाति प्रमाथिन्याजनो रसमिमोहितः मृत्युमिक्षत्य सद्बुद्धिर्मीनस्तु बलिशैर्यथा इन्द्रियाणि जयन्त्यासो निराहारामनीषिणः वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते तावजितेन्द्रियो न स्याद्विजितायिन्येन्द्रियपमान् न जयेद्रशनं यावज्जीतं सर्वं जितेरसे रसे इङ्गलानाम् वेश्यासे विदेह नगरे पुरा तस्या मे शिक्षितं किञ्चिन्निबोधनिपुनन्दन